स तु गच्छन्ननेकाग्रः सभामेकोऽन्वचिन्तयत् धर्मराजस्य धीमतः प्रमत्तो धार्त पुत्रो दुर्योधनस्तदा नाभ्यभाषत्सु बलजं भाषमानं पुनः पुनः अनेकाग्रम् तु तम् दृष्ट्वा शकुनिः प्रत्यभाषत दुर्योधन कुतो मूलम् निःश्वसन्निव दृष्ट्वे माम् पृथिवीम् कृत्स्नाम् युधिष्ठिरवशानुगाम् जितामस्त्रप्रतापेन श्वेताश्वस्य महात्मनः तम् च यज्ञम् तथा भूतम् दृष्ट्वा पार्थस्य मातुल यथा शक्रस्य देवेषु तथा भूतं, भूतं। महाद्युतेः अमर्षेण तु सम्पूर्णो दह्यमानो दिवानिशम् शुचिशुक्रागमे काले शुष्येत् तोयमिवाल्पकम् पश्य सात्वतमुख्येन शिशुपालो निपातितः न च तत्र पुमानासीत् कश्चित्तस्य पदानुगः दह्यमाना हि राजानः पाण्डवोत्थेन वह्निना क्षान्तवन्तोपराधन्ते को तत्क्षन्तुमर्हति वासुदेवेन तत्कर्म यथा युक्तम् महत्कृतम् सिद्धम् प्रतापेन महात्मनाम् तथा हि रत्नान्यादाय विविधानि नृपा उपातिष्ठन्त कौन्तेयम् वैश्या